एम्बति ओन्ावद् दशकम् सुभद्राहरणम् मुदलयवर्णनम् स्निग्धाम् मुग्धाम् सततमपिताम् लालयन् सत्यभामा यातो भूयः सकलुतया याज्ञसेनीविवाहम् पार्थप्रीत्यै पुनरपि मना चक्रप्रस्थम् पुरमपि विभो संविदायागतो भू भद्राम् भद्राम् भवत वरजाम् कौरवेणाप्यमाना त्वद्वासतामहृतगुहना मस्करीचक्रसूनो तत्र क्रुद्धम् बलमनुनयन् प्रत्यगास्तेन सार्धम् चक्रप्रस्थम् प्रियसकमुदे सत्यभामा सखाय तत्र क्रीडन् अपि च यमुना कूलदृष्टाम् गृहीत्वा ताम् कालिन्दीम् न करमगम देवपैतृष्वसे ये राज्ञाम् मध्ये सपति जगिषे मित्रविन्दामवन्ती सत्याम् गत्वा पुनरुधवः नग्नजिन्नन्दनाम् ताम् भत्वा सप्तापि च वृषवरान् सप्तमूर्तिर्निमेषान् भद्राम् नाम प्रददुरतते देवसन्दर्दनाध्या तत्सोदर्यावरत भवत सापि वैदृष्मसेयी पात्रात्यैरव्यकृतलवनम् तोयमात्राभिलक्ष्यम् लक्षम् चित्त्वा च परमवृता लक्ष्मणामद्रकन्या अष्टावेवम् तव समभवन् वल्लभास्तत्र मध्ये चुश्रोदत्वम् सुरपतिगिर बहुमतोेष्टितानी स्मृतायाम् पक्षे प्रवरमधिरूढस्त्वमगमो वहन् बामा उपवनमिवा रातिभवनम् विभिन्नम् दुर्गाणि त्रुटितपृतना चोणितरसे पुरम् तावत् प्राज्ञो दिशमकुरुता शोणितपुरम् मुरस्त्वाम् पञ्चास्यो जलति स चक्रे चक्रेण प्रदलितचिरामङ्क्षु भवत चतुर्दन्तैर्दन्ता वलपतिभिरिन्दानसमरम् प्रदाङ्गेन चित्वा नरकमकरोस्तीर्णनरकम् स्तुतो भूम्या राज्यम् सबदि बगत तेस्य तनये गजम् चैकम् दत्त्वा प्रजिगयित नागान्निजपुरी कलेनाबद्धानाम् स्वगदमनसाम् शोट पुनः सहस्राणि स्त्रीणाम् अपि च धनराशिम् च विपुलम् बहुमाभाकृतकुण्टलम् दददितेर् प्रयातो दिवम् चक्राद्यैर्मकितः समम् द्युष्ट्रीष्टु दत्त हृह्या हृद्वा कल्पतरुम् रुषा विपतितम् जित्वेन्द्रमप्यागम तत्तु श्रीमत दोष ईदृश इति व्याख्यातुमेवाकृधाम् कल्पद्रुम् सत्यभामा भवनपुविसृजन् द्वश्च साकस्रयोषा स्वीकृत्य प्रत्यगारम् विहित बहुवपुर्लीलयन् केलिबेधै आश्चर्याम् नारतालोकितविवितगते तत्र तत्रापि गेहे भूयः सर्वासु कुर्वन् दश दशतनयान् पाहि वातालयेश भजगोविन्दम् भज गोविम् गोविन्दम् भज मोटमते